नारदपुराणम् उत्तरार्थम् अध्ययम् टु वसिष्ठ उवाच इममे वार्धमुद्दिश्य नैमिषारण्यवासिनः पप्रचुर्मुनयसूदं व्यासशिष्यं महामदिं सदुपृष्टो महाभाग एकादश्यासुविस्तरं महात्म्यं कथयामास उपवासविधिं तथा तद्वाक्यं सूतपुत्रस्य श्रुत्वा द्विजवरोत्तमः माहात्म्यं चक्रीणश्चापि सर्वपापौखशान्दिदं पुनः पप्रचुरमलं सूदं पौराणिकं नृप अष्टादशपुराणानि भवान् जनादिमानद कानिनस्य प्रसादेनः महाभारतमप्युद तन्नास्ति यन्न वेत्सि त्वं पुराणेषु स्मृतिष्वपि चरिते रघुनाथस्य शतकोटिप्रविस्तरे अस्माकं संशयः कश्चिद् हृदये सम्प्रवर्तते तम् भवानर्हति सुविस्तराद तिधे प्रान्तमुपोष्यं स्यादाहोऽस्मिन्मूलमेव च दैवे पैत्र्ये समाख्या नावेद्यं विद्यते तवल सौदिरुवाच तिथे प्रान्तं सुराणां हि उपोष्यम् मूलं तिधे पितॄणां तु कालज्ञ प्रियमीदम अध प्रादोष्यंतिथेर्दशलेसुभ मूलंतृप विज्ञे धर्मकांक्षी पूर्व विधानकर्तव्या चाष्टमी तीचकादशी भूपर्म कामिप्सु पूर्वविद्धा द्विजश्रेष्ठा कर्तव्या सप्तमी सदा दर्शश्च पौर्णमासश्च पिदुःसांवत्सरं दिनं पूर्वविद्धानि मां त्यक्त्वा नरकं प्रतिपद्यते अनिं च सन्ततेर्भोपदौर्भाग्यं समवाप्नुयाद यदच्छ्रुतं मया विप्रा कृष्णद्वैपायनात् पुरा यास्तोपापिति यास्तोकापि तिधिर्भवेद् पूर्वविद्धादु मन्तव्या प्रभूता नोदयं विना पारणे मरणे नृणां स्मृता पि त्रियेस्तमनवेलायाम् स्पर्शे पूर्णा निगद्यते न तत्रो दहिनिग्राह्या दैवस्यो दहिकीतिथिः प्रत्यगं शोधयेत्प्राज्ञस्तिथिं दैवज्ञचिन्तपादतिधिप्रमाणं विप्रेन्द्राः क्षपाकर दिवाकरौ चार चन्द्रार्कचारविज्ञानात्कालं कालविदो विदुः पूर्वायासङ्गदोषेण न योग्यास्ताः प्रपूजने वर्जयन्ति नरास्तज्ञा यामांश्च चतुरोद्विजाः अदऊर्ध्वं प्रवक्ष्यामि स्नानपूजाविधिक्रमम् न दिव शुद्धिमाप्नोति तदा रात्रौ विधीयते दिनकार्यमशेषं हि कर्तव्यं शर्वरीमुखे विधिरेषमयाख्यातो नराणामुपवासिनाम् अल्पायामतविप्रेन्द्राद्वादश्यामरुणोदये स्नानार्चनक्रियाकार्या दानवोमादिसंयुगा त्रयोदश्यां हि शुद्धायां पारणे पृथिवीफलं शतयत्नाधिगं वापि नरः प्राप्नोत्यसंशयं यदस्मात् कारणाद्विप्राह प्रत्यूषे स्नानमाचरेद पितृतर्पणसंयुक्तं न दृष्ट्वा द्वादशीदिनम् महानिकरा ह्येषा द्वादशी लङ्किता नृभिः करोदि धर्महरणमस्नादेव सरस्वती क्षये वाप्यथवा वृद्धौ सम्प्राप्ते वा, वा दिनोदये उपोष्य द्वादशी पुण्या विद्धा विवर्जयेद ब्राह्मण उवाच यथा च प्राप्यते सुदद्वादश्याम् पूर्वसम्भवा ततोपवासो हि कथम् कर्तव्यो मानवैर्वद उपवासदिनम् विद्धम् यदा भवति पूर्वया द्वितीयेऽह्नि यदा न स्यात् स्वल्पाप्येकादशीतिथिः तत्रोपवासो विहितः कथम् तद्वदसूत च यदा न प्राप्यते विप्रा द्वादश्याम् पूर्व सम्भवम् रविचन्द्रार्कदाहम् तु तदोपोष्यम् परम् दिनम् बह्वागमविरोधेषु ब्राह्मणेषु विवादिषु उपोष्या द्वादशी पुण्यात् त्रयोदश्याम् तु पारणम् एकादश्याम् तु विद्यायाम् सम्प्राप्ते श्रवणे तथा उपोच्या द्वादशी पुण्यापक्षयोरुभयोरवि एषवो निर्णय प्रोक्तो मया शास्त्रविनर्णयाद किमन्यच्चोदु कामाहि तद्भवन्तो ब्रुवन्तु मे ऋषय ऊचुः युगादीनां वद्वीद्धिं सौ ते सम्यग्यथा तथम् रविसङ्क्रान्तिकादीनां नावेद्यं विद्यते तव सौदिरुवाच द्वेशुक्ले शुक्ले द्वे तथा कृष्णे युगाध्याकवयो विदुः शुक्ले पूर्वाह्निहे ग्राह्ये कृष्णे ग्राह्ये पराह्निके अयनं दिनभागाढ्यं सङ्क्रमषोडशफलः पूर्वे दु दक्षिणे भागे व्यतीदे चोत्तरो मदः मध्यकाले दुविषुवे त्वक्षया परिकीर्तिता ज्ञात्वा विप्रास्थितिं सम्यक् सां वत्सर समीचितां कर्तव्यो ह्युपवासस्तु अन्यथा नरकं व्रजेद पूर्वविधं प्रकुर्वाणो नरो धर्मं निकृन्तति सं तथेस्तु विनाशाय सम्पदां हरणाय च फलवेर्थेऽपि विप्रेन्द्रा दशम्या वर्जयेच्छिवां सुराया बिन्दुना स्पृष्टं यथा गङ्गाजलं त्यजेद स्वक्रदं पञ्चगव्यं च दशम्या दूषितां त्यजेद एकादशीं पक्षयोरुभयोरपि पूर्वविद्यापुरा दत्तास्सातिधिना मौलिना दानवेभ्यो द्विजश्रेष्ठा प्रीणनार्थं महात्मनाम् अकाले यद्धनं दत्तमपात्रेभ्यो द्विजोत्तमाः सङ्कृद्वैरपि यद्दत्तं यद्दत्तं चाप्यसत्कृतम् पूर्वविद्धतिथौ दत्तं तद्दत्तमद्दु असुरेष्वसा यदुच्छिष्ठेन दत्तं तु यद्दत्तं पदितेष्वी स्त्रीजेतेषु च यद्दत्तं यद्दत्तं जलवर्जितं पुनः कीर्तनसं युक्तं तद्दत्तमसुरेषु वै तस्माद्विप्राणकार्त्त्या विधाप्येकादशी तिथिः यथा सन्ति पुरा पुण्यं श्राद्धं च वृषलीपतिः दत्तं जप्तं हुतं स्नादं तथा पूजा कृदा हरेः तिथौ विध्येक्षयं व्याधितमत्सूर्योदये यथा जीर्णं पदिं यौवनगर्विता यथा त्यजन्ति नार्यो चषके दुर्नार्दिताः तथा हि वेद्धम् विभुधास्त्यजन्ति तिद्यन्तरं धर्म विवृद्धये सदा इति श्रीभृकन्नारदीयपुराणोत्तरभागेऽतिथिविचारो नाम द्वितीयोऽध्यायः ओम्